मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं ट्वेण्टि नैन् त्रिशिरसश्चरितवर्णनं श्रीगणेशाय नमः मुद्गल उवाच अन्यत्वं शृणुमाहात्म्यं दूर्वाया स्वसुखप्रदं यया तृप्तिसमायुक्तो बभूवद्विरदाननः एकदा नारदो योगी जगामजनकालयं पूजितो जनकं सोऽपि जगाद हर्षसंयुधः नारद उवाच धन्यत्वं गणनाथस्य भक्तः परमभाविकः मनेप्सिदं गणाध्यक्षो ददते ते नियन्त्रितः नारदस्य वच तं प्रहस्य महामुनिं जगाद जनको वाक्यं योगयुक्तं स योगविद जनक उवाच याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः पूर्णशान्तिप्रदो विप्रगणेशो नात्र संशयः एकाक्षरं गणेशस्य दधौ मन्त्रं सुसिद्धितं मह्यं स योगिन् साधनं प्रजगामहा तथा महायोगिन् साधितं ज्ञानमुत्तमम् गणेशकृपया सन्तु योगीजादो गुरुर्यथा अधोऽहं गणनाथश्च न भिन्नौ मुनिसत्तम गणेशस्य कृपा कुत्र भेददायिनी मया यच्चिन्तितं तत्तत्कथं ददाति अयोगिनामिदम् सर्वम् भ्रान्दिदम् भवतीत्यहो पञ्चथाित्तवृत्तिश्च तासाम् प्रकाशकारकः चिन्तामणिस्वयम् साक्षात् खेलदि हृदि संस्थितः जनकः कुत्र योगीन्द्रवरुतदे वदसाम्प्रतम् तस्योपरिगणेशस्य कृपादिगमिदं मुने अहं हर्ता अहं कर्ताकं पादा च मदात्मनां भ्रान्तवद्भाषणं योग्यं नैव ते योगिसत्तमा जनकस्य वच श्रुत्वा नारदक्रोधसंयुधः उवाच तं महाभागम् निर्भत्स्य जनकम् पुनः नारद उवाच ज्ञानमत्तोऽसि राजेन्द्र नश्वरस्त्वं कथं भवेः गणेशाकाररूपश्च देखवान् ब्रह्मधारकः ब्रह्मणस्पदिनामा गणेशो वेदवादः शरीरे तस्य सा वर्तते पूर्णभावदः योगी देहेन सा कदापि नृपवर्तते समाधिना च योगीन्द्रो गणेशकथितो बुधैः प्रारब्ध देहधारित्वा नरो योगी न संशयः नरतुल्या शरीरेस्य भवेत्सत्ता हि सर्वदा गर्विष्ठो योगमाहात्म्याज्जनकत्वां विशेषदः भविदा गर्वभं गस्ते एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ तं प्रणम्य विनीतः स वृत्तान्तं प्रजगादः पुनः प्रणम्य विघ्नेश्यं ययौ स्वेच्छाचरो मुनिः नारदो गणनाथस्य गानासक्तो महामतिः तदो गजाननो भूपं वृद्धब्राह्मणरूपधृक आययौ जनकं कुष्ठी कृमिभाराकुलः पदन् कम्भेन संयुधसोऽपि दुर्गन्धेन समावृतः पूय शोणितकर्मौकैर्व्याप्तश्च मक्षिकावृतः द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः यया चेतं नृपं विप्रो भोजनं तोषकारकं राज्ञा सम्भूजितो विप्रो बुभुजेर्नं समागदं। अन्नं पुनर्यया चेतं पुष्कलम् प्रदौ नृपः तदेवतेन तेन सम्भुक्तं पुना राजा भयाकुलः अयुदानां समं तस्मै दधावन्नं सुतुष्ठितम् भक्षयित्वा तथापि स ययाचेन्नं महामुनिः तदोपक्वं ददौ तस्मै तत् बभक्ष द्विजोत्तमः राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः अन्नं बभक्ष तत्सोऽपि ययाचेदं धरापतिं पुरप्रान्ते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ययाचे स विप्रो विप्रो देह्यन्नं राजसत्तम राज्ञा लज्जा समायुक्तो न किञ्चित्तमुवाचः राजानं मुनिवर्यश्च जगादप्रहसन्निव त्वं गणेशो न सन्देहकथं सत्ता विवर्जितः अकर्तुं कर्तुमद्यैवान्यथा कर्तुं गजाननः समर्थस्त्वं कथं राजं तूष्णीं तिष्ठसि तद्वद भ्रान्दो योगमदेनासि राजेन्द्रात्र न प्रत्यक्षं नरतुल्योऽसि न गणेशो येवमुक्त्वा एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपदृकबहिर्निःसृत्यलोकान्स ययाचेन्नं क्षुधातुरः लोकाः सर्वे समूचुस्तं सर्वेषाम् गृहगम् मुने राज्ञा समाहृतं चान्यं त्वया सर्वं प्रभक्षितम् नास्मद्गेहेऽधुना किञ्चिदन्नं त्वं गच्छवाढव सर्वभक्षकुतो यादः कोऽसि न ज्ञायते श्रुत्वा सोऽपि ह सन्विप्रो बभ्राम यत्र तत्र तु पुरप्रान्ते गतो दैवात् ददर्शद्वाढवालयम् त्रिशिरा तं ददर्श गणेशान् प्रविवेश तदाश्रमं सर्वापकार संयुक्तं धातु धान्यादिवर्जितं यया महाभागमन्नं तृप्तिकरं मुने दीयता मे क्षुधार्ताय शिरास्तत्र ब्राह्मणं वाक्यमुत्तमम् मद्गृहे नैव विप्रेन्द्रधान्यं किञ्चित् प्रवर्तते दरिद्राणां महाराजोऽहमेको नात्र संशयः मत्समो मानमो युक्तो दारिद्र्येण न दुर्वाङ्गुरास्समानीता गणेशपूजनाय च तेष्वेको विद्यदेविप्रणान्यत्किञ्चिद्विचारय तस्य तद्वचनं श्रुत्वा जगादक्षुभिदो द्विजः भक्त्या देहि महाभाग दुर्वाङ्गुरं क्षुधापहम् तदो विरोचनविप्रं ददौ नत्वा गजाननं द्यात्वा दूर्वाङ्गुरं तस्मै नानान्नं कल्प्यतत्रसा भक्त्या दत्तं तया विप्रो बभक्षप्रीदिसंयुधः तेन दूर्वाङ्गुरेणैव सन्तृप्तो भून्महामदे भक्त्या तुष्ठो ददौ विप्रं दर्शनं गणनायकः गजवक्त्रादिचिह्नैश्च युदंरूपम् परात्परं दृष्ट्वालम्बोदरं तौ दुःप्रणेमदुः पुनः पुनः तं साश्रुनयनौ पूज्य तुष्टुू कृताजल विरोचनात्रिशिसूचु गणेशा नमस्वियक ब्रह्मणे ब्रह्मनाधा विघ्नेशा नमो नम हेरंबा परेशा मूषकध्वजिने नम आत्मनेनात्मने तुभ्यं नमो लम्बोदराय वै अनामय ह्यनाधारसर्वाधारसुमूर्तये वक्रतुण्डाय सर्वेषां नमः पूज्याय ते नमः आदिमध्यान्तहीनाय तदाकारायढुण्ढये ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः सर्वादिशूर्पकर्णाय पूर्णाय धरणीधर शेषनाभिविभूषाय नमश्चिन्तामणि नमः सिद्धिबुद्धिप्रदात्रे ते स्वानन्दे वासकारिणे भक्तेभ्यः शान्तिदात्रे वै शान्तिस्ताय नमो नमः सिद्धिबुद्धिवरायैव नमो मूषकवाहन गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने धन्यौमादापितानाथकुलशीलादिकं च मे येन दृष्टो गणाधीशो वेदान्तागोचरो विभुः वेदाविदुर्नो न च ब्रह्माधयो ब्रह्मादयो वेदविदशिवादयः शान्त्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न परात्परस्त्वं परमप्रमेय कथं महात्मन् सदने गधो मम नमत्समोह्यण्डकडासमध्ये गणेशदे पादसमीपगादः एवं संस्तुवदस्तस्य सस्त्रीकस्य महामुने अत्यन्तभक्तिमाहात्म्यात् कण्ठरोधः ननर्त न युक्तस्तत्र प्रजापते सरोमाञ्चो न सस्मार यदा भ्रान्तश्च साश्रुकः तदस्तं गणनाथो वै वचनं हितं स्वयं साश्रु सरोमाञ्चो भक्तिं दृष्ट्वा महामुने श्रीगणेश उवाच भवत्कृतमिदं स्तोत्रम् मम प्रीतिकरं बहु भविष्यति जनानां वै मुने मद्भक्तिवर्धनं यः यो यो मर्त्यश्रोष्यते सर्वमालभेद भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेद् वरान् वृणुमहायोगिं स्त्रिशिरो मनसीप्सिदान् सर्वं दास्यामि भक्त्यादे तोषितोऽहं न संशयः गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः त्रिशिरा उवाच मामोहयसि किं नाद न गजानन सर्वं भ्रान्तिपदं मत्वा भक्तिं व्याजे त्वयि श्रुत्वा जगाद तं विघ्नराजोत्सौ विस्मितो भवत अहो यः सुदृढां भक्तिमेकां वृणोदि वाडवः श्रीगणेश उवाच पूर्णां भक्तिं महायोगिन् लभसे नात्र संशयः मदीयां ते वशे नित्यम् भविष्यामितया किल एव मुक्त्वान्तर्दधेः सौ गणेशो ब्रह्मनायकः सस्त्री कस्त्री सिरास्तत्र खेदयुक्तो बभूवः गणेशकृपया तत्र गृहं तस्य महामुनेः शुशुभेरत्नसंयुक्तम् सुवर्णभित्तिराजितम् द्वारिनाजनास्तत्र सुवर्णयष्टिधारकाः स्थितास्तथा स्त्रियो दासा सेवां कर्तुं सुलालसाः नानासम्पत्तिसंयुक्तम् दृष्ट्वा सौविस्मितो भवत तावद्दासाश्च तं गृह्य सेवां चकृ सुभाविकाः तद्दृष्ट्वा परमाश्चर्यं मुनिः पत्नीं समब्रवीद मायाभक्तिप्रणाशार्थं दत्ता विघ्नेश्वरेण अधो यत्नसमयुक्ता भुङ्क्ष्वभोगान् महासदि एवं मदविहीनौ तौ परं बुभुजदुःसुखं दानमार्गेण स दधौ द्रव्यं नानाविधं विधे तथापि तादृशं तत्र रेजेशोऽपि सुविस्मितः एतत्ते दूर्वा किञ्चित् दूर्वामाहात्म्यमुत्कटं पूर्णं सर्वसिद्धिप्रदायकं गणेशरोमकूपेषु ब्रह्माण्डानिह्यनेकषः ब्रह्मणानां विधं देहे स्थितं तस्य प्रजापते तत्सर्वं तृप्तिमायादि तृप्ते विघ्नेश्वरे परे फलं तस्य च लोके को वर्णयेद्वदमानद त्रैलोक्यादिकमेदस्मान्नं दूर्वया भवेद अपारपुण्यदा प्रोक्ता गणेशे तोषकारिणी दूर्वाया महिमादक्षकथितो ब्रह्मदायकः भुक्तिमुक्तिप्रदः पूर्णः पठते शृण्वते भवेद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशोऽध्यायः ओ